अत तैत्र्यारण्यः नवमप्रश्नप्रारम्भः सह ना भवतु सह नोऽभुनक्तु सह वीर्यङ्करवावहे तेजस्विनावधीतमस्तु माविद्विषावहे ओम् शान्ति त्रिःशान्तिःशान्तिः भृगुर्वैवारुणिः वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मात् तत्प्रववाच अन्नम् प्राणम् चक्षस्रोत्रम् मनोवाचमिति तगम्होवाच यतो वा इमानि भूतानि जायन्ते ये न जातानि जीवन्त्ये यत्प्रयन्त्यभिसंविशन्ति तद्ब्रह्मेति सतपोदप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति अन्नाद्धेव खल्भिमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयन्त्यभिसंविशन्तीति तद्भिज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति त्रम्भोवाच तपसा ब्रह्म विजिज्ञासस्व तपो स प्राणो ब्रह्मेति व्यजानात् प्राणाभ्येव स तपोदप्यत स तपस्तप्त्वा मनो ब्रह्मेति व्यजानात् मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जीवन्ति मनः प्रयन्त्यभिसंविशन्तेति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्भोवाच तपसा ब्रह्म विजिज्ञास तपोदप्यत स तपस्तप्त्वा विज्ञानम् ब्रह्मे दिव्यजानात् विज्ञानाद्धेव खल्विमानिभूतानि जायन्ते विज्ञानेन जातानि जीवन्ते विज्ञानम् प्रयन्त्यभिसंविशन्तेति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगम्होवाच तपसा ब्रह्म तपो ब्रह्मेति स तपो आनन्दो ब्रह्मे दिव्यजानात् आनन्दाभ्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ते आनन्दम् रजन्तभिसंशन्देति सैषा भार्गवेपारुणे विद्या परमे व्योमन्प्रतिष्ठिता य अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् येत्या अन्नन्ननिन्द्यात् तद्व्रतम् प्राणोवाननम् शरीरमन्नादम् प्राणे शरीरम् प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः तदेतदम् नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेदप्रतिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या अन्नन्नपरिचक्षीत तद्भृतम् आपोवान्नम् ज्योतिरन्नादम् अप्सुज्योतिःप्रतिष्ठितम् ज्योतिष्यापः प्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेदप्रतिष्ठति अन्नवानम्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसेन महान् कीर्त्या अन्नम अन्नम् बहुगुर्वीत तद्व्रतम् जिगीवान्नम् आकाशोन्नादः पृथिव्यामाकाशः प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ये प्रतिष्ठितम् स य एतदन्नमन्ये प्रतिष्ठितम् वेदप्रतिष्ठति भवति महाम् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या न कञ्चमवसतो प्रत्याचक्षीत तद्भ्रतम् तस्माद्यया तया च विधया बह्पन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्या चक्षते एतद्वै मुखतोऽन्नगुम् राद्धम् मुखतोऽस्मानन्नघुम् राध्यते एतद्वै मध्यतोऽन्नगुम् राद्धम् मध्यतोऽस्मानन्नघुम् राध्यते एतद्वा अन्वतोऽस्मानगुम् राध्यते य एवम् वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पादौ इति मानुषे समाज्ञाः अथ दैवीः तृप्तिरिति कृष्टौ फलमिति विद्युति यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्दरित्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान्भवति तन्मन इत्युपासीत मानवान्भवति तन्नमरित्युपासीत नम्यन्ते अस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीत पर्येणम् प्रियन्ते द्विषन्तः स पत्नाः पर्यये प्रियाभ्रातृव्याः स यश्चायम् पुरुषे यश्चासाबाधित्ये स एकः स य एवम् वित् अस्माल्लोकात् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमाल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् एतत्सामगायन्नास्ते दोहमन्नादो ओहमन्नादः दो, अहग्रश्रगृदहग्रगृद अहग्रश्व गगृदे अहमस्मि प्रथमजारता स्या ओर्वन्देवेभ्यो अमृस्य ददातिशयिरेव माह अहमन्नमन्नमरन्तमा अहम् विश्वम्भुवनमभ्यभवाम् सुवर्णज्योतेः य एवम् वेद इत्युपनिषत् सहनाभवत् सहनो भुनक्तु सह वीर्यङ्करवावहै एतस्विनावधीतमस्तु मा विद्विषावहेः ओम् शान्तिः शान्तिः शान्तिः इति तैत्रिय आरण्यः